द्रौपद्युवाच नास्मि देवी न ना गन्धर्वी नासुरी न ना च राक्षसी सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमिते केषान् जानाम्यहम् कर्तुम् पिंसे साधु विलेपनम् मल्लिकोद्बल पद्मानाम् चम्पकानाम् तथा शुभे वधयिष्ये विचित्राश्च सज परमशोभनाः आराधयम् सत्यभामाम् कृष्णस्य महिषीम् प्रियाम् कृष्णाञ्च भार्याम् पाण्डूनाम् कुरूणामेकसुन्दरीम् तत्त तत्र स्वयं देवि चकारसा साह मद्यागता देवि सुदेष्णे त्वन्निवेशनम् सुदेष्णोवाच मोधित्वां वासयेयम् वै संशयो मे न विद्यते न चेदिच्छति राजा त्वाम् गच्छेत् सर्वेण चेतसा स्त्रियो राजकुलेयाश्च याश्चेमा मम वेश्मनि प्रसक्तास्त्वाम् निरीक्षन्ते पुमांसम् वृक्षांश्चावस्थितान् पश्यायिमेऽपि त्वाम् सन्नमन्ती वा विराटः शुश्रोणि दृष्ट्वा वपुरमानुषम् विहाय माम् वरारोहे गच्छेत् सर्वेण चेतसः यं हि त्वम् मनवद्याङ्गी तरलायतलोचने प्रसक्तमभिवीक्षेथा सकामवशको भवेत् यश्चत्वाम् सततं पश्येत् पुरुषष्टारुहासिनी एवम् सर्वानवद्याङ्गी सचानङ्गवशो भवेत् अध्यारोहेद्यथा वृक्षान्वधायैवात्मनो नरः राजवेश्मनि ते शुभ्रू ग्रहे तु स्यात्तथा च कर्कटी गर्भमाधत्ते मृत्युमात्मनः हं मन्ये वासं तव शुचिस्मिते द्रौपद्युवाच नास्मि लभ्या विराटेना न चान्ये न कदाचन गन्धर्वापतयो मह्यं युवान पञ्चभामिनि गन्धर्वराजस्यामः सत्तस्य कस्यचित् रक्षन्ति ते नित्यं दुःखाचारा तथाह्यहं यो मे न दद्यादुच्छिष्टम् न च पादौ प्रधावयेत् त्रीणेरंसेन वासेना गन्धर्वा पतयो मम यो पुरुषो गृध्येद् यथान्याः प्राकृता स्त्रियः तामेव निवसेद्रात्रिम् प्रविश्य च परान्तनुम् न चाप्यहम् चालयितुम् शक्या केन चिदङ्गने दुःखशीला बलिनः प्रियाः प्रच्छन्नाश्चापि रक्षन्ति ते माम् शुचिस्मिते सुतेष्णोवाच एवम् त्वाम् वासयिष्यामि यथा नन्दिनीच्छसि न च पादो न चोच्छिष्टम् स्प्रक्ष्यसित्वम् कथञ्चन वैशम्पायन उवाच एवं कृष्णा विराटस्या भार्यया परिसान्त्विता उवासनगरे तस्मिन् पतिधर्मवती सती न वेद तत्रान्यस्तत्त्वेन जनमेजया